हरि ओम् श्री, श्री, श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे सप्तदशाधिकशतम सर्गः अत्र आश्रमं गतानां श्रीरामादीनां तेन सत्कारो अनुसूयया च सीताया समादरः राघवस्तु अपयातेषु सर्वेषु अनुविचिन्तयन् न तत्रा रोचयद्वासम् कारणे बहुभिस्तदा इहवे भरतो दृष्टो मातरैश्च स नागरः सा च मे स्मृतिरन्वेति तान्नित्यम् अनुशोचतः स्कन्धावारनिवेशेन तेन तस्य महात्मनः हयहस्ति करीषेश्च उपमार्दः कृतो तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघव प्रातिष्ठत स वैदेह नाच च सङ्गतः श्रोत्रे आश्रममासाद्य तम्ब वन्दे महायशः तं चापि भगवानत्रि पुत्रवत् प्रत्यपद्यत स्वयम् आतिथ्यमादिश्य सर्वमस्य सुसत्कृतम् सौमित्रीम् च महाभागम् सीताञ्च समसान्वयत् पत्नीम् च तमनुप्राप्ताम् वृद्धा मामन्त्र चत्कृताम् सान्त्वयामासूतहिते रतः अनसूयाम् महाभागाम् तापसीम् धर्मचारिणीम् प्रतिगृह्णीष्व वैदेहीम् अब्रुवीदृशि सत्तमः रामाय चाचक्षसे तां तापसीम् धर्मचारिणीम् दर्शवर्ण्यान्यनावृष्ट्य दग्धे लोके निरन्तरम् यया मूलफले सृष्टि दाह्नवी च प्रवर्तिता उग्रेण तपसा युक्ता नियमये चाप्यलङ्कृता दशवर्षसहस्राणि यया तप्तम् महत्तपः अनुसूया वृतेस्तात् प्रत्युहाच च देवकार्य देवकार्यनिमित्तम् च यया सन्दर्माणय दशरात्रम् कृता रात्रि श्रीयम् मा ते वे न तामिवाम् सर्वभूतानाम् नमस्कार्याम् तपस्विनीम् अभिगच्छतु वै देहि वृद्धाम् सदा एवं प्रमाणम् तमऋषिम् तथेत्युक्त्वा स राघवः सीतामालोक्य धर्मज्ञाम् इदम् वचन अब्रवीत् राजपुत्री श्रुतम् चेतम् मुने अस्य समीरितम् श्रेयोर्थम् आत्मनः शीघ्रम् अभिगच्छ तपस्विनीम् अनसूयेति आलोके कर्माभिख्यातिमागता तां शीघ्रम् अभिगच्छ ताम् अभिगम्याम् तपस्विनीम् सीता त्वेत द्वच श्रुत्वा राघवस्य यशस्विनी तामत्रिपत्नीम् धनपज्ञाम् अभि चक्रममैथिली शिथिलाम् वलिताम् वृद्धाम् जरापाण्डूरमूर्धजाम् सततम् वेपमानाङ्गीम् प्रवाते कदलीमिव तान् तु सीतामहाभागाम् अनुसूयाम् पतिव्रताम् अभ्यवादय द व्यग्रं नाम समुदाहरेत् अभिवाद्य च वैदेही तापसीं तां दमान्विताम् बद्धाञ्जलि पुटार्हि पर्यपृच्छ दनामयम् सदा धर्मचारिणीम् सान्त्वयन्त्य धर्मम् अपेक्षते त्यक्त्वा ज्ञापी जनम् सीते मानवृद्धिम् च मानि अवरुद्धम् बले रामम् दिष्ट्या त्वम् अनुगच्छति नगरस्थो वनस्थो वा शुभो वा यदि वा शुभ यासाम् स्त्रीणाम् प्रयो तासाम् लोका महोदयः दुःशील कामवृत्तो वा ध्वनिर्वा परिवर्जितः श्रीणामार्यस्वभावानाम् परमम् दैवतम्पतिः नातो विशिष्टम् पश्यामि बान्धवम् विपृशन्त्यहम् सर्वत्वयोग्यम् वैदेही तपकृतम् अवाव्ययम् न त्वेवम् अनुगच्छन्ति गुणदोषम् असत्यः कामव्यक्तव्यदय भर्तृ नासा चरन्त्या प्राप्नुवन्ति यशश्चैव धर्मभ्रंशञ्च मैथिली अकार्यवचमापन्ना स्त्रियो यः खलु तद्विधा तद्विधा तु गुणैर्युक्ता दृष्टलोक परावरः स्त्रियः स्वर्गे चरिषन्ति यथा पुण्यकृतस्तथा तदेवमेतंवृता सती पतिप्रधाना समयानुवर्तिनि भवस्व भर्तु स धर्मचारिणी यशश्च धर्मं चतुत समाप्स्यसि इच्छाश्रे श्रीमद् रामायणे वाल्मीकि अधिकाव्यजाखण्डे सप्तदशाधिक चन्द्रम स्वर्ग श्रीसीता रामचन्द्रार्पणमस्तु